अथ पंचमस्क प्रिं वजो मनोपुत्रो विरक्त विषय निदेशों लब्धराज्यो भुवम पालयत रथनेमतर्गर्त सम्र सप्तर्मता येन तस्य प्रभावाद्या गुणा वाचाम गोचराः राज्ये पुत्रान् प्रतिष्ठाप्य प्रियव्रदो प्रियव्रतो महाप्राज्ञसन्धिर्णो भवसागराद तत्पौत्र पालयामा स्वभुवं नाभिः सुधार्मिकः भगवान् ऋषभो नाम्ना यस्य पुत्रत्वमागमद ऋषभो वैदिकान् धर्मान् स्वानुष्ठानान् प्रकाशयन् लेभे जयन्त्यां सत्पुत्रान् शतं भरतपूर्वकान् स्वधर्माद् भगवद्भक्तिर्वैराग्यज्ञानवर्धिनी महत्सङ्गः क्षेमहेदुकर्तव्यो मनसो जयः निवृत्तिमार्गे नेतव्याः प्रजाः सर्वा दयालुभिः इति पुत्रानुपादिश्य स्वलोकमृषभोगमद भरतश्रद्धया धर्मान् हरिप्रीत्यर्थमाचरन् शुद्धचित्तस्त्यकृतराज्यो गण्डकी तीरमागमद नारायणपरस्तत्र तपस्यन् मृगसङ्गदः मृगो भूत्वा पुनर्ब्रह्म कुले भूत्पूर्वपुण्यतः कृतकृत्यो ज्ञानलाभादात्मानं दर्शयन् बहिः उन्मत्तादिस्वरूपेण विचचारप्रसन्नधीः समं रागादिहीनं तं काली बल्यार्थमाहरन् वृषलस्तप्तया देव्या हतः परिजनैः सह रघोगणम् पादमूले पदिदं शिबिकाम् वहन् उपदिष्य परं ज्ञानम् कृतार्थमकरोत्क्षणाध भरदस्य कुले जादोगयो यज्ञैर्यजन् हरिं तत्प्रसादात् परं स्थानं लेभे देवगणस्तु सप्तद्वीपात्मिका भूमिः सप्त भूमेर्मध्ये महामेरोगङ्गायचिखरेपद इलावृदादयो वर्षा जम्बूद्वीपगदानव उपास्यन्ते मोक्षकामयुर्तेषु सङ्घर्षणादयः सङ्घर्षणो हयग्रीवो मत्स्यकूर्मश्च सूकरः नरसिंहकामदेवो रामो नारायणो नव वर्षेषु भारदं वर्षं प्रशस्तं देवसन्नुदं द्वीपान्तरेषु सूर्यादिरूपेण पासनम् हरेः सूर्यादीनां स्वधकालचक्रेण च गतिद्वयं भवेद्यस्मादहोरात्रप्राणिकर्मफलोद्भवः सप्तर्षीणां परं स्थानाद्ध्रुवस्य स्थानमुत्तमं सूर्यादीनामधस्थानं राहोस्निग्धगणस्य च अदलाद्यास्तु लोका वैभूमेश्चिद्राणि तेषु च बलादयोसुरा नाघाका द्रवेया वसन्धिः सङ्घर्षणो भूमिधरो नरकादिस्थलान्यधः शिक्षादु पापिणां यत्र धर्मराजेन कार्यते इति पञ्चमस्कार